श्रीमद्भागवतमहापुराणं पञ्चमस्कन्ध एतदेव हि देवा गायन्ति अहो अमी सां किं कार्यशोभनं प्रसन्नये सां सीधुत मरी यजन्मलब्धं न सुभारताजिरे मुकुन्दसेववहोपैकं स्विहाहिर किं दुष्करेण कृतभेतपोव्रतये दानादिभिर्वाद्विजयेन फलगुणा न ना यत्र नारायणपादपङ्कजस्मृतिप्रतिं प्रमुष्टातिशयेन्द्रियोत्सवात् कल्पायुषां सानजयात् पुनर्भवात् क्षणायुषां भारतभूजयो वरं चलेन वर्तेन कृतं मनस्विन शन्यस्य सैयान्त्यभयं पदं हरे न यत्र वैकुण्ठकथासिधापगान्न साधवो भागवता सदाश्रया न यत्र यज्ञे समखामहो शबासुरे स लोकोऽपि न वै ससेव्यताम् प्राप्ता न जातिं ति ह्येत जन्तवो ज्ञानक्रियादव्यकलापसंभृताम् पुनर्भवायते भूयो वनौकायु यान्ति वन्दनम् ये श्रद्धया बर्हिसि भागशोभवे निरुप्तमिष्टम् विधिमन्त्रवस्तुतः एका पृथग् नामभिराहुतो मुदा गृह्णन् गृह्णन्ति पूर्णस्वयमाशिषां प्रभो तद्दं दि सत्यर्थितमर्थितोनां नैवार्थतों यत्पुनरर्थितायत त्वं विदत्ते भजतामनिच्छतामेच्छापिधानं निजपादपल्लवं यत्तद्दनस्वर्गसुखावशेषितं श्रेष्ठस्य सुक्तस्य कृतस्य शोभनम् तेनाजनाभे स्मृतिमज्जन्म न स्याद्वरसे हरि यद्भजतां शं तनोति श्रीशुकुवाच जम्बूद्वीपस्य च राजन्पद्वीपा नष्टौ भैक उपदिशन्ति प्रकरात्मजैरश्वान्वेषणा इमां महिं परितोनिखनभिरुपकल्पितार तद्यथा स्वर्णप्रतश्चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिणः पाञ्चजन्यशृङ्खलोऽलङ्केति एवं तो भारतोत्तमं जम्बूदीपवर्षविभागो यथोपदेशमुपवर्णित इति श्रीमद्भागवती महापुराणे प्रींशां शयितायां पञ्चमस्कन्दे जम्बूदीपवर्णनं नावैकोनविंशोऽध्यायः